धातुकाले वा लिट्के इन्द्रि भवति ज्ञाम् च दृढमिदृशिषवसामुष ग्रहीष्वपि इको जल हलन्ताच्च लिप्सि चात्मनि परेषु श्च वागमः हनासि यमो बन्धने विभाषोपयमने स्थालोरे च ने निष्ठाशीम् श्रीमितिक्षुतिदृशा नृषास्त्रिक्षायाम् उदुपदाभावादिकर्मणो रन्नतरस्याम् उङ्क्त्वा च न पदाथवान् ञ्चे लवस्वृषि मृषि कृषे पाश्य पश्य रलोकथालेश ऊकालो जस्व दीर्घपुत्रः पचश्च उच्चैर्ता नीचैरन्दातः समाहाराश्रयितः तस्यादिकम एकशुलीयुगा सम्बुद्धौ यज्जकर्मण्यजपन्युङ्खसामसो उच्चैतराम् वावसत्कारः विभाषा छन्दसि न सुब्रह्मणयाम् स्वरितस्य उदात्त स्वरित परस्य सन्नतरः अपृक्त एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययः उदात्त स्वरित परस्य सन्नतरः अपृक्त एकाल् प्रत्ययः उदात्त स्वरित परस्य सन्नतरः अपृक्तेकाल् प्रत्ययः परिक्ताय कार् प्रत्ययः तत्पुरुषः समानाधिकरणः तत् सुधारयः तत्पुरुषा समानाधिकरणः कर्मधारया तत्पुरुषा समानाधिकरणः कर्मधारया तत्पुरुषः सत्पुरुषः तत्पुरुषा तत्पुरुषा समानाधिकरणः समानाधिकरणः समानाधिकरणः तत्पुरुषः समानाधिकरणः कर्मधारयः तत्पुरुषा समानाधिकरणः कर्मधारयः तत्पुरुषा सा समानाधिकरणः कर्मधारयः अपृक्त एकाल प्रत्ययः तत्पुरुषः समानादिकरणः कर्मधारयः अपृक्तेकाल तत्पुरुषा सा तत्पुरुषः समानाधिकरणः कर्मधारयः अपृक्त एकालप्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः उदात्त स्वरितपरस्य सन्नतरः अपृक्त एकालप्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः प्रथमा निर्दिष्टम् समास उपसर्जनम् उदात्त शरीर परस्य एकविभक्ति च पूर्वनिपाते <Sess evi> प्रथमानिर्दिष्टम् समास उपसर्जनम् <Sess evi> एकविभक्ति च पूर्वनिपाते <Sess evi> प्रथमानिर्दिष्टम् समास उपसर्जनम् <Sess evi> एकविभक्ति <गए> च पूर्वनिपाते <गए> तत्पुरुषः समानाधिकरणः कर्मधारयः <Sess evi> प्रथमानिर्दिष्टम् समाजोपसर्जनम् एकविभक्ति च पूर्वनिपाते तत्पुरुष समानाधिकरण कर्मधारया प्रथमानि विदिष्टम् समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते एकविभक्ति च पूर्वनिपाते एकविभक्ति च पूर्वनिपाते अर्थवद धातुर प्रत्ययः प्रातिपदिकम् एक विभक्ति च पूर्वनिपाते अर्थवद धातुरा प्रत्ययः प्रातिपदिकम् अर्थवद धातुरा प्रत्ययः प्रातिपदिकम् प्रथमा निर्दिष्टम् समासोपसर्जनम् एकविभक्ति च पूर्वनिपाते अर्थवदधातुर प्रत्ययः प्रातिपदिकम् प्रथमा एक विभक्ति च पूर्वनिपाते अर्थवद्धातुरा प्रत्यया प्रातिपदिकम् अर्थवद धातुर प्रत्यया प्रातिपदिकम् अर्थवद धातुरा प्रत्यया प्रातिपदिकम् अर्थवद धातुरा प्रत्यया प्रातिपदिकम् प्रथमा निर्दिष्टम् समाजौ सलिनम् एव विभक्ति च पूर्वनिपाते अर्थवद धातुर प्रत्ययः प्रातिपदिकम् प्रथमा निर्दिष्टम् समास उपसर्जनम् एकविभक्ति च पूर्वनिपाते अर्थवद्धातुरा प्रत्यया प्रातिपदिकम् अर्थवद धातुर प्रत्ययः प्रातिपदिकम् अर्थबद्धाध्व अर्थ वद धातुर प्रत्ययः प्रातिपदिकम् अर्थवद धातुरा प्रत्ययः प्रातिपदिकम् <trastum> कृतधित समासाश्च अथवदधातुर प्रत्ययः प्रातिपदिकम् कृत्त समासाश्च हर्षवद धातुरा प्रत्ययः प्रातिपदिकम् कृत्तधित समासाश्च हर्षवद्धातुरा प्रत्ययः प्रातिपदिकम् कृतधि समासाश्च एकाल प्रत्ययः पुरुषा समानाधिकरणा कर्मधारया प्रथमा निर्दिष्टम् समासौ सर्जनम् एकविभक्ति च पूर्वनिपाते अर्थवदधातुनप्रत्ययः एक विभक्ति च पूर्वनिपाते अर्थवद्धातुरा अर्थवदधातुरा प्रत्ययः प्रातिपदिकम् कृतद्धितसमासाश्च न पुंसके प्रातिपदिकस्य हरश्वो harasvona puṁsake prāti padhitaśyā kṛttadjita samāsāścā harasvona puṁsake prāti padhitaśyā kṛttadjita samāsāścā harasvona puṁsake prāti padhitaśyā gośtriyorupasādhyanāścā gośtriyorupasādhyanāścā गोस्त्रियोरुपसर्जनस्य ह्रस्व ने प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य ह्रस्वो नपुंसके प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य ह्रस्वो न प्रातिपदिकस्य गोष्ठयोरुपसर्जनस्य कृतसितसमासा ह्रस्वनुपुषके प्रातिपदिकस्य गोष्ठयोरुपसर्जनस्य कृत्तस्थितसमासाय ह्रस्वनुपे प्रातिपदिकस्य गोष्ठ्योरुपसर्जनस्य अथवा धातु प्रत्ययः हृत्सहितसमासाश्च ह्रस्वनुपुंसके प्रातिपदिकस्य गोष्ठीयोरुपसर्जनस्य अर्चवत् अर्चकदातु प्रत्यया प्रातिपदिकम् सजितसमासाश्च ह्रस्व न पुंसके प्रातिपदिकस्य गोष्ठीयोनुपसर्जनस्य गोष्ठीयोरुपसर्जनस्य लुप्तदितलुके लुप्तदितलुके लुप्तदितलुगे गोष्ठियोरुपसजनस्य लुप्तदितलुके गोष्ठीयोरुपसर्जनस्य लुप्तदितलुके गोष्ठी उपसर्जनस्य लुप्तदितलुके लुप्तदितलुके मूल्याः लुप्तदित लुके इोण्याः लुप्तित लुके इोण्याः गोस्त्रियोपसजनस्य लुप्तदित लुके गोण्या गोस्त्रियोपसजनस्य लुप्त लुके इद्गोण्याः गोस्त्रियोप सजनस्य लुप्तित लुके इति गूण्याः अर्थवद् धातुरप्रत्यया प्रातिपदिकम् अथ कृत्तसमासाश्च ह्रस्वनपुंसके प्रातिपदिकस्य गोष्ठियोरुपसज्जनस्य लुप्तधितलुके इति गूण्याः अर्थवद धातुरा प्रत्यया प्रातिपदिकम् कृत्तधितसमासाश्च हरस्वो नपुंसके प्रातिपदिकस्य गोष्टियोरुपसर्जनस्य लुप्तधिकनुके यदि कोण्या अपृक्त एकाल् प्रत्ययः तत्पुरुषः समानानि कर्णः कर्मधारया प्रथमानिर्दिष्टम् समासौ शासनम् एकविभक्ते च पूर्वनिपाते अथबदधातुरप्रत्ययः समासाश्च ह्रस्वके प्रातिपदिकस्य गोत्रयोपसरितस्य लुप्तदित लुकीपूण्याः अपृक्त एकालप्रत्ययः तत्पुरुषः समानाधिकरणः कर्मधारयः तस्मान् निर्दिष्टम् समास उपसर्जनम् एकभिभक्ति च अर्थवद्धातुरा प्रत्ययः प्रातिपदिकम् कृत्तसमासाश्च ह्रवो नपुंसुके प्रातिपदिकस्य गोस्त्रियोरुपसर्जनस्य तद्धि लुके गोण्यः